अथ त्रिषष्टितमः सर्गः तस्य राक्षसराजस्य निशम्यपरिदेवितम् कुम्भकर्णो बभाषेदम् वचनम् प्रजहास च दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया शीघ्रम् खल्वभ्युपेतम् त्वाम् फलम् पापस्य कर्मणः निरयेष्वेव पतनम् यथा दुष्कृतकर्मणः प्रथमम् वै महाराजकृत्यमेतदचिन्तितम् केवलम् वीर्यदर्पेण नानुबन्धो विचारितः यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः पूर्वम् चोत्तरकार्याणि न, न, न देशकालविहीनानि कर्माणि विपरीतवत् क्रियमाणानि दुष्यन्ति हवींश्य प्रयतेष्विव त्रयाणाम् पञ्चथायोगम् कर्मणाम् यः प्रपद्यते सचिवैः समयम् कृत्वा ससं सम्यग्वर्तते पथि यथागमम् च यो राजा समयं च चिकीर्षति बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति धर्ममर्थम् हि कामम् वा बा सर्वान् वा रक्षसाम् भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः त्रिषु चैतेषु यच्छ्रेष्ठम् श्रुत्वा तन्नावबुध्यते राजा वा राजमात्रो वा व्यर्थम् तस्य बहुश्रुतम् काले धर्मार्थकामान्यः सम्बन्ध्य सचिवैः सह निषेवेतात्मवाल्लोकेन स व्यसनमाप्नुयात् कुर्यात् कुर्यात्कार्यमिहात्मनः राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः अनभिज्ञायशास्त्रार्थान् पुरुषाः पशुबुद्धयः गल्भ्याद् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः अशास्त्रविदुषाम् तेषाम् कार्यम् नाभिहितम् वचः अर्थशास्त्राणभिज्ञानाम् ना विपुलाम् श्रियमिच्छताम् अहितम् च हिताकारम् धार्ष्या जल्पन्ति ये नराः अवश्यम् मन्त्रबाह्यास्ते कर्तव्याः कृत्य दूषकाः विनाशयन्तो भर्तारम् सहिताः शत्रुभिर्बुधैः विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः तान् भर्तामित्रसङ्काशानुमित्रान् मन्त्रनिर्णये व्यवहारेण जानीयात् सचिवानुपसंहितान् चपलस्येह कृत्यानि सहसानुप्रधावतः छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव यो हि शत्रुमवज्ञाय आत्मानम् नाभिरक्षति अवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते यदुक्तमिहते पूर्वं पूर्वम् प्रिययामेनुजेन च तदेव नोहितम् वाक्यम् तथा कुरु तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् भ्रुकुटिम् चैव सञ्चक्रे क्रुद्धश्चैनमभाषत मान्यो गुरुरिवाचार्यः किम् माम् तमनुशासे किमेवम् वा कृत्वा यद्युक्तं तद्विधीयता विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा नाभिपन्नमिदानीम् यद्व्यर्था तस्य पुनः कथा अस्मिन्काले तु यद्युक्तम् तदिदानीम् विचिन्त्यता गतम् तु नानुशोचन्ति गतम् ममापनयजम् दोषम् विक्रमेण समीकुरु यदि खल्वस्ति मे स्नेहो विक्रमम् वाधिगच्छसि यदि कार्यम् ममैतत्ते हृदि कार्यतमम् मतम् स सुहृद्यो विपन्नार्थम् दीनमभ्युपद्यते सबन्धुर्योपनीतेषु साहाय्यायोपकल्पते तमथैवम् ब्रुवाणम् स पृष्टोऽयमिति विज्ञायशनैः श्लक्ष्णमुवाचः अतीव हि समालक्ष्य भ्रातरम् शुभितेन्द्रियम् कुम्भकर्णः शनैर्वाक्यम् बभाषे परिसान्त्वयन् शृणु राजन्न वहितो मम वाक्यमरिन्दम अलम् राक्षस राजेन्द्रसन्तापमुपपद्यते रोषम् च सम्परित्यज्य स्वस्थो भवितुमर्हसि नैतन्मनसि कर्तव्यम् मयि जीवति पार्थिव तमहम् नाशयिष्यामि यत्कृते परितप्यते अवश्यम् तु हितम् वाच्यम् सर्वावस्थम् मया तव बन्धुभावादभिहितम् भ्रातृस्नेहाच्च पार्थिव सदृशम् यच्च कालेऽस्मिन्कर्तुम् स्नेहेन बन्धुना शत्रूणाम् कदनम् पश्य क्रियमाणम् मया रणे अद्य पश्य महाबाहो मया समरमूर्ध्वी हते रामे सह भ्रात्रा द्रवन्तीम् हरिवाहिनी अद्य रामस्य तद्दृष्ट्वा मया नीतम् रणाच्छिरः सुखी भव महाबाहो सीता भवतु दुःखिता अद्य रामस्य पश्यन्तु निधनम् सुमहत्प्रियम् लङ्कायाम् राक्षसाः सर्वे एते निहत बान्धवाः अद्य शोकपरीतानाम् स्वबन्धुवधशोचिना शत्रोर्युधिविनाशेण करोम् यश्रुप्रमार्जनम् अद्य पर्वतसङ्काशम् ससूर्यमिवतो यदम् विकीर्णम् पश्य समरे सुग्रीवम् प्लवगेश्वरम् कथम् च राक्षसैरेभिर्मया च परि सान्त्वितः जिघाम् सुभिर्दा शरथिम् यथ माम् निहत्य किल त्वाम् हिरिहरिष्यति राघवः नाहमात्मनि सन्तापम् तानहम् योधयिष्यामि कुबेरवरुणावपि गिरिमात्रशरीरस्य शितशूलधरस्य मे नर्दतस्तीक्ष्णदंष्ट्रस्य विभीया द्वै पुरम् दरः अथवा त्यक्तशस्त्रस्य हस्ताभ्यामेव संरभ्य हनिष्यामि स वज्रिणम् यदि मे मुष्टिवेगम् स राघवोऽद्यसहिष्यति ततः पास्यन्ति बाणौघारुधिरम् राघवस्य मे चिन्तया तप्यसे राजन् किमर्थम् मयि तिष्ठति सोऽहम् शत्रुविनाशाय तव निर्यातुमुद्यतः मुञ्च रामाद्भयम् घोरम् यहनिष्यामि संयुगे राघवम् लक्ष्मणम् चैव सुग्रीवम् च महाबलम् हनूमन्तम् च रक्षोघ्नम् येन लङ्का प्रदीपिता हरींश्च भक्षयिष्यामि संयुगे समुपस्थिते असाधारणमिच्छामि तव दातुम् महद्यशः यदि चेन्द्राद्भयम् राजन् यदि चापि स्वयम्भुवः ततोऽहम् नाशयिष्यामि नैषम् तम इवांशुमान् अपि देवाश्रयिष्यन्ते मयि क्रुद्धे महीतले यमम् च शमयिष्यामि भक्षयिष्यामि पावकम् आदित्यम् पातयिष्यामि सदक्षत्रम् महीतले शतक्रतुम् वधिष्यामि पास्यामि वरुणालयम् पर्वताम् चूर्णयिष्यामि धारयिष्यामि मेदिनीम् दीर्घकालम् प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः नत्विदं त्विदम् त्रिदिवम् सर्वमाहारो मम पूर्यते वधेन ते दाशरथे सुखावहम् सुखं समाहर्तुमहम् व्रजामि निहत्य रामम् सह लक्ष्मणेन खादामि सर्वान् हरियूथ मुख्यान् तमः स्वराजन् पिबाद्यवारुणीम् कुरुष्व मैद्यमित यम क्षयं शिराय सीतावा भविष्य इशे श्रीमद् रे वाक्युकाष्ट सर्ग